हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे सप्ताधिकशत तमः सर्गः श्रीराम रावणयोर्घोरं युद्धम् तथा प्रवृत्तं सुक्रूरम् राम रावणयोस्तदा सुमद्वैरथं युद्धम् सर्वलोकभयावहं ततो राक्षसैन्यं च महद्बलम् प्रगृहीत प्रहरणम् निश्चेष्टम् समवर्तत सम्प्रयुद्धौ तु तौ दृष्ट्वा बलवन्नरराक्षस व्याक्षिप्त हृदि सर्वे परम् विस्मयमागतः नानाप्रणैव्यग्रे भुजे विस्मितबुद्धयः सस्थु प्रेक्ष्य च सङ्ग्रामम् नाभिजग्मु परस्परम् रक्षताम् रावणम् चापि वानराणाम् च राघवम् पश्यताम् विस्मिताक्षराणाम् सैन्यम् चित्रम् विवाबभौ तौ तु तत्र निमित्तानि दृष्ट्वा राघव रावणो कृतबुद्धि स्थिरामर्शो युयुधा ते इति रावणः धृतो स्ववीर्य सर्वस्वम् युद्धे दर्शयतां तदा तथा क्रोधात् दशग्रीव शरान् वीर्यवान् ममोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् तैशरास्तं मनासाद्य पुरन्दर रथध्वजम् रथशक्तिम् परामृश्य निपेतो धरणीतले ततो रामस्य संक्रुद्ध चापमाकृष्य वीरिवन् कुट प्रति कुतम् कर्तुम् मनसा सम्पचक्रमे रावणध्वजमुद्दिश्य ममोच निशितम् चरम् महासर्पम् विवासह्यम् ज्वलन्तं सेन तेजसा रामा शिक्षेप तेजस्वी केतुमुद्दिश्य सायकम् जगामस मयि छित्वा तज ग्रीव भयं भूमौ रावणस्य धनध्वज ध्वजस्योन्मथनम् दृष्ट्वा रावण स महाबलः सम्प्रदीप्तो भवत् क्रोधात् अमर्चात् प्रदहन्निव रोष वशमापन्न शर्वर्षम्ब वर्षः वर्च रामस्य तुरगान् दीप्तैः शरीर्विभ्याध रावणः ते दिव्या हरय तत्र न स्खलन्नापि बभ्रू बभ्रमुः बभूव स्वस्थहृदयाः तेषां सम्भ्रमम् दृष्ट्वा वाजिनां रावणस्तदा भूय एव सुसंक्रुद्ध शरवर्षम् गराचे गदा च परिघ्रा चक्राणि मुसलानि च गिरिशृङ्गाणि वृक्षा च तथा शूल परश्वधान् मलं त्रासजनम् भीमं भीमप्रतिस्वनं तद्वश्यम् अभवद् युद्धे नैकशस्त्र मयत् विमोचय राघवरथम् समन्ताद्वानरे बले सा सायकै अन्तरिक्षं चकारे सुनिरन्तरम् ममोच दश ग्रीवो निस्सङ्गेनान्तरात्मना गायच्छमानं तं दृष्ट्वा तत्परं रावणमरणे प्रहसन्निव काकुत्स्थ सन्दधे निशिताञ्चरान् सोममोच तदो बाणान् शतषोश्रं दृष्ट्वा रावणश्चक्रे स्वशरीखम् निरन्तरं ताभ्याम् नियुक्तेन तदा शर्वर्षेण भास्वता शर्वद्धम् इव भाति द्वितीयम् भास्वदम्बरम् नानिमित्तो भवद्रबाणो न निर्भेत्ता अन्योन्यम् अभि संवृत्य तथा विसृजतोर्बाणान् राम रावणयोर्मूे प्रयुच्छेताम् अविच्छिन्नम् सव्यदक्षिणम् चक्रतुश्च चे शरे घोरये निरुवासम् इवाम्बरम् रावणस्य हयान् है रामो हयान् रामस्य रावणः जग्नतु सो तदान्योन्यम् कुता नु कुतकारिणौ एवं तूतौ सङ्क्रुद्धौ चक्रतुर्युद्धमुत्तमम् मुहूर्तम् अभवद् युद्धम् समलम् रोमर्षणम् तव तथा युध्यमानोतु समरे राम रावणौ ददृशु सर्वभूतानि विस्मितेनान्तरात्मना अर्जयन्तो तु समरे तयोस्तौ चन्दनोत्तम परस्परम् अभिक्रुद्ध परस्परम् अभिद्रुतो परस्परवधैयुक्तो घोररूप मण्डलानि च वीथिश्च दर्शयतो बहुविधाम सूतो राघसारथ्यजाम् गतिम् अर्पयन् रावणम् रामो राघवम् चापि रावणः गतिवेगम् समापन्नो प्रवर्तन् अनिवर्तते क्षीपतो शरजालानि तयोतौ चन्दनोत्तमौ चेरतु संयुगमहिम् सासारौ जलदौ इव दर्शयित्वा तदातौ तु गतिम् बहुविधाम ऋणे परस्परस्यभिमुखौ पुनरेव च तथतु धुरेण रतयो वक्रं वक्रेण वाजिनाम् पताकाश्च पताकाभि समीयु स्थितयोस्तदा रावणस्य ततो रामो धनुर्मुक्तये शरीश्वरे चतुर्वे चतुरो दीप्तान् हयान् प्रत्यपसर्पय स क्रोध वचमापन्नो हयानाम् अपसर्पणे ममोच निशितान् बाणान् राघवाय दशाननः सोऽतिविद्धो बलवता दशग्रीवेण राघवः जगाम न विकारं च न चापि व्यथितो भवेत् शिक्षेप च पुनर्बाणां वज्रसारसमस्वनान् सारथिं वज्रहस्तस्य समुद्दिश्य दशान् न हे पातले तु शरीरे पतिता न सूक्ष्मम् अपि सम्भोहं यथां वा तया धर्षणया क्रुद्धो मातलेन तथात्मनः चकार शरयालेन राघवो विमुखम् रिपुं विंशतिं त्रिंशतिं षष्टिं शतशोथ सहस्रज ममोच राघवो वीर सायकान्त्यन्यपः रावणोऽपि तत क्रुद्धो रथस्थो राक्षसेश्वर गदा मुसलः वर्षेण रामं प्रत्यर्दयत् प्रणे तत् प्रवृत्तम् पुनर्युद्धम् तुमलम् रोमहर्षणम् गदानां मुसलानां च परिघाणां च निस्वने शराणां पुङ्खवात च क्षुभितः सप्त सागरः क्षुब्धानां सागराणां च पातालय गिता दानव सर्वे पन्दगा च सहस्र चकम्पे मेदिने कृना स शैलवनकान भास्करो निष्प्रभ्यासन् न भवति मारुतः ततो देवा सगंधरवा, सिद्धा च परमर्षयहे चिन्ता मापेदिरे सर्वे स किन्धर स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वतः जयताम् राघवः सङ्खे रावणम् राक्षसेश्वरम् एवं जपन्तो पश्यन्ते देवासर्चिगणास्तदा राम रावणयोर्युद्धम् सुघोरं रोमहर्षणम् गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनुपमम् गगनम् गगनाकारे सागरे सागरोपमः राम रावणयोर्युद्धम् राम रावणयोरिव एवं भवन्तो दृश तद्युद्धं राम रावणम् तथा क्रोधा न बाहु रघूणां कीर्तिवर्धनः सन्धाय धनुषा रावणस्य शिरोच्छिन्द श्रीमज्ज्वलितकुण्डलम् तच्छिरे पतितं भूमौ दृष्टं लोके श्रीविस्तृशं जान्यत् रावणस्योत्थितं चिरः स क्षिप्तम् चिक्र क्षिप्रहस्तेन रामेण क्षिप्रकारेण द्वितीयं रावणाक्षीर छिन्नं संयति सायकै चिन्नमात्रं च तच्छीर्शेषम् पुनरेव प्रदुष्यते तदप्य शनिसङ्काशे छिन्नम् रामस्य साहायकै एवम् एव शतम् छिन्नम् शिरसाम् तुल्यवर्चसाम् न चैव रावणास्यान्तो दृश्यते जीवितक्षये ततश्च सर्वास्त्रविन्दुवीर कौसल्यानन्दवर्धनः मार्गणैः बहुभि युक्तै चिन्तयामास राघवः मारीचो नियतो यस्तु करो यस्तु सदूषणः कौञ्चावटे विराधस्तु कबन्धो दण्डका वले यै सालागिरयो भग्ना ग्वाली चक्षुविदोम्बुधि तै वै सर्वे युद्धे प्रत्ययिकामव किं नु तत्कारणम् येन रावणे मन्दतेजसः इति चिन्ता परचासीत् अप्रमत्तश्च संयुगे स्ववर्षवर्षाणि राघवो रावणो रसी रावणोऽपि ततः क्रुद्धो रसस्थो राक्षसेश्वरः गदामुसल वर्षेण रामं प्रत्यहृदय दृढे तत्प्रवृत्तम् महद्युद्धम् मलम् रोमहर्षणम् अन्तरिक्षे च भूमोच पुनश्च यदि मूर्धने देव दानव यक्षाणां पिशाचोरग रक्षसाम् पश्यतां तन्महद्युद्धम् सर्वरात्रम् न वर्तते नैव रात्रिं न दिवसम् न मुहूर्तं न चक्षणम् राम विराममुपगच्छति दशरथसुत्तराक्ष सेन्द्रयोस्तयो जय मनविः चरणे स राघवस्य स्ववरथ सारथि महात्मा रणरथ राममुवाच वाक्यमाशु इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारुद्धकाण्डे सप्ताधिकशतमः सर्गः श्री सीताचंद्रपणमस्तु